श्रीहरये नमः अथ सप्तसप्तदिमोऽध्यायः श्रीशुक उवाच सधूपस्पृश्य सलिलं दंसितो धृतकार्मुकः नय मां द्युमतः द्युमन्तं रुक्मिणी सुतः प्रतिहत्य प्रत्यविद्यन्नार् आचैष्टिस्मयन् चतुर्भिश्चतुरो वामेकेन साहनात् द्वाभ्यां धनुश्च केतुं च शरेणान् येन वैषिरः गतः सात्यकिशाम् बाध्या पेतुः समुद्रे सौभेया सर्वे सञ्चिन्नकन्धराः एवं यदूनां साल्वानां निघ्नता मितरेतरं युद्धं त्रिनवरात्रं तथा भोतुमूलं वुल्भणम् इन्द्रप्रस्थं गत कृष्ण आहुतो धर्मसूनुनां राजसूयेत निर्वृत्ते शिशुपाले च संस्थिते कुरु वृद्धान् अनुज्ञाप्य मुनीश्च ससुधां प्रतां निमित्तान्यतिघोराणि पश्यन्द्वारवतीं ययो आकशाकमिहायात आर्यमिश्राभिसङ्गतः राजन्याश्चैत्यपक्षीया नूनं हन्युः पुरी मम वीक्षतत्कथनं स्वानाम् निरूप्य पुरक्षण सौभंश्च साल्वराजां च दारुकं प्राह केशवः रथं प्रापय मे सूत साल्वस्यान्तिकमासुभये सम्भ्रमस्तेन कर्तव्यो मायावीसौभराढयम् इत्युक्तश्चोदयामास रथमास्ताय धारुकः विशन्तम् दतृषुः सर्वे स्वे साल्वश्च कृष्णमालोक्य हतप्राय भलेश्वरः प्राहरत्कृष्णसूताय शक्तिम् भीमरवाम्रते मापतन्तीं नभसे महोल्कामिवरं मा हसां भासयन्तीं दिश सौरे सायकैः स दधा चिनत् दं च के भ्रमत् अविद्यश्चरसन्दोहे कंसूर्य इव रश्मिभिः साल्पः सौरेस्तु धोस्सव्यं शार्गं हस्तात् शार्ङ्गमासीत् तदद्भुतं हा हाकारो भूतानां तत्र पश्यतां इदमागजनार्दनं यत्त्वया मूटनः सख्योर्भ्रातुर्भार्या हृते क्षतां प्रमत्तः स सभामध्ये त्वया व्यापादितः सख नयामि अपुनरावृत्तिं यदि श्रीभगवानुवाच वृथा त्वं कथसेमन्ध न पश्यन्ति केन्दकं पौरुषं दर्शयन्ति स्म सूरा न इत्युक्त्वा भगवान् साल्वं गतया भीमवेगया तथाडजद्रौ संर सचकम्बे गतायां सन्निवृत्तायां ताल्वस्त्वन्वन्तरधीयतां ततो मुहूर्त आगत्य पुरुषस्थिरसाश्च्युतं देवक्या प्रखितोऽस्मी नत्वा प्रागवचो रुदन् कृष्णकृष्णमहाभागो पिता ते पितृवत्सला पद्वापनीतसाेन सौनिकेन यथा पशुः निसंयविप्रियं कृष्णो मानुषीं प्रकृतिं गतः विमनस्को ग्रीणीस्नेहात् बभाषे प्राकृतो यथा गतं राममसम्भ्रान्तं जित्वा जेयं सुरासुरैः साल्वेन अल्पीयसानीत पितामे मे बलवान् विधिहे इति ब्रुवाणे गोविन्दे सौभराट प्रत्युपस्थितः वसुदेवमिवानीय कृष्णं चेतमुवाच सः एष ते जनिता तातो यथर्थमिह जीवसि वदिष्ये वीक्षतस्ते मुमेशश्चेत् पाहि बालिसा एवं निर्भत्स्य मायावे कट्केन आनघधुन्धुभेहे उत्कृत्य शिर आधाय कष्टं शोभं समाविशत् ततो मुहूर्तं प्रकृतावुभब्लुतः श्वेभोत आस्ते स्वजनानुषङ्गतः महानुभावस्तदबुद्ध्यदाशुरें मायां ससार्वप्रश्रुतामयोदितां न तत्र धूतं न पितुः कलेवरम् प्रभुद्ध आजौ समपश्यदश्युतः स्वाप्नं यथा शाम्बरशारिणं रिपं सौभस्तमालोक्य निकन्तुमुद्यतः एवं वदन्ति राजर्षे ऋषयः केचनान्विताः यत्स्ववाचो विरध्येत नूनं ते न स्मरन्त्युत क्व भयं यज्ञसम्भवाः क्वचा खण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः यत्पादसेवोर्जितयात्मविद्यया हिन्द्वन्त्यनादि आत्मविपर्ययग्रहं लभन्त आत्मीयम् अनन्तमैश्वरम् कुतो नु मोहः परमस्य सद्गतेः तं शस्त्रपूगैप्रहरन्तमोजसा सार्वं शरैशौरिरमोकविक्रमः विद्वाचिन त्वामधनुः शिरोमणिं सौभं च शत्रुर्घतया रुरोजः तत्कृष्णहस्तेरतया विशूर्णि पपाततो ये गतया सहस्रधा विसृज्य तत् भूतलमास्तितो गताम् उद्यम्य साल्वोश्च्युतमभ्यकादृतम् आधावतः स गतं तस्य भाहुम् भल्लेन चित्वा तरधाङ्कमद्भुतं वधाय सार्वस्य लयार्घसन्निभं बिभ्रद्बभौ सार्कयिवोधयाचलः जकारतेनैव किरीटयुक्तं पुरुमायिनो हरिः वज्रेण वृत्रस्य तस्मिन्निपतिते पापे सौभे च गतया हते नेतोर्दुन्दुभयो राजन् दिवि देवगणेरिताः सखीनाम् अपचितिं कुर्वन् दन्तभक्तोभ्यग इति श्रीमद्भागवते महापुराणे दशमस्कन्दे उत्तरार्ते सौभवतो नाम सप्ततितमोऽध्यायाः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय